मार्कण्डेयपुराणम् अध्यायम् एय् जैमिनिरुवाच भवद्भिरिदमाख्यातं यथा प्रश्नमनुक्रमाद महत् कौतूहलं मेस्ति हरिश्चन्द्रकथां प्रति अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम् कच्चिसुखमन तादेविजोत्तमा पक्षिणु विश्वामच्रुवा स राजन शुदो दुखी भार्यया बलपुत्रया गसुधा बाो दिव्यां वाराणसी नैषा मनुष्य भोग्येदिशे पिग्रह जगाम पद्या दुखा सह पत्कूलया पुरी प्रवेशे दृशे विश्वामुपस्थित तं दृष्ट्वा समनुप्राप्तं विनयावनदो भवद प्राहश्चैवाञ्चलिं कृत्वा हरिश्चन्द्रो महामुनिम् इमे प्राणासुधश्चायमियं पत्नी मुने मम येन ते कृत्यमस्त्याशु तत् गृहाणाख्यमुत्तमम् यद्वान्यत्कार्यमस्माभिस्तदनुज्ञातुमर्कसि विश्वामित्र उवाच पूर्णः समासो राजर्षे धियदा मम दक्षिणा राजसूयनिमित्तं हि स्मर्यते स्वपचोयति हरिश्चन्द्र उवाच ब्राह्मन्नद्यैव सम्पूर्णो मा सोम्लानतपोधनतिष्ठत्येदनार्थं यत्तत्प्रदीक्षस्वमाचिरम् श्लोका इलेवन् विश्वामित्र उवाच एवमस्तु महाराज आगमिष्याम्यहं पुनः शापं तव प्रदास्यामि न चेदद्यप्रदास्यसि पक्षिण ऊचुः इत्युक्त्वा प्रययौ विप्रो राजा चाचिन्तयत्तदा कथमस्मै प्रदास्यामि दक्षिणायाप्रतिश्रुधा कुतः पुष्टानि मित्राणि कुतोऽर्थः साम्प्रतं प्रदिग्रहः प्रदुष्टोमे मे नाहं यायामधकथं किमु प्राणान् विमुञ्चामि कां दिशं याम्य किञ्चनः यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतं ब्रह्मस्वहृत्कृमिपावो भविष्याम्यधमाधमः अथवा प्रेश्य वरमेवात्मक्रय पक्षिणचु राजकुम दीनम चिंतानुखम प्रत्युवाच तदानी बाष्पगदया गिरा त्यज चिंता महाराज स्सत्यमुय श्मशानवद्वर्जनीयो नरः सत्यबहिष्कृतः धर्मं वदन्ति पुरुषस्य तु यादृशं पुरुषव्याक्रस्वसत्यपरिपालनम् अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाक्रियाः भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणं सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमदां तारणाय नृतं तद्वत्पादनाय कृतात्मना श्लोक ट्वेण्टि वन् सप्ताश्वमेधानाहृत्य राजसूयं पार्थिवः कृतिर्नामच्युतः राजन्जादमपत्यम्मे सकृत इत्युक्त्वा प्ररुरोदः बाष्पाम्बुप्लुद नेत्रान्दामुवाचेदम् महीपदिः हरिश्चन्द्र उपाच विमुञ्च भद्रे सन्तापमयं तिष्ठदि बालकः उच्यतां वक्तृकामासि यद्वा त्वं गजगामिनि पत्न्युवाच राज्जादमपत्यं मे सदां पुत्रफला स्त्रियः समां प्रदाय वितेन देहि विप्राय दक्षिणां पक्षिण ऊचुः एतद्वाक्यमुपसृत्य ययौ मोहं महीपतिः प्रदिलभ्यज संज्ञां स विललापादिदुःखितः महद्दुःखमिदं भद्रे यत्त्वमेवं ब्रवीषि मां तवस्म संभा मम पाप सेस्मृता कथम थया श्रुमेद शुचिस्मते दुर्वाच्य में वचन कर्म शक्नोम्यहम धिगित्य नरश्रेष्ठिहृद्रुवन निपपादमहीपृष्ठे मूर्च्छयाभिपरिप्लुतः शयानं भुवितं दृष्ट्वा हरिश्चन्द्रं महीपतिम् उवाचेदं सकरुणं राजपत्नीसुदुःखिता पत्न्युवाच हा महाराज कस्येदमपधान्यमुपस्थितम् यत्त्वं निपतिदो भूमौ राङ्गवास्तरणोचिदः श्लोक तर्टिवन् येन कोड्यग्रगोवित्तं विप्राणामपवर्जितं स एष पृथिवीनाथो भूमौ स्वपिति मेपदिः आकष्टं किं तवनेन कृतं देवमहीक्षिदा यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशां यद्युक्त्वा साभि शुश्रोणी मूर्च्छिदा निपपादः भर्तृदुःखमहाभार्येणासह्येन निपीडिता तौ तथा पतितौ भूमा वनाधौ पितरौ शिशुः दृष्ट्वात्यन्तं क्षुधा विष्टः प्राहवाक्यं सुदुःखितः तादताद दध स्वान्नमम्बाम्ब भोजनं ददा क्षुन्मे बलवदी जादा जिह्वाग्रं शुष्यदे तदा पक्षिण ऊचुः चेदस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः दृष्ट्वा तुदं हरिश्चन्द्रं पदिदं भुवि मूर्छिदं सवारिणा समभ्युक्ष्य राजानमिदमब्रवीद उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम् तृणं धारयदो दुःखमहन्यहनिवर्धन्ते आप्यायमानः सतता हिमशीतेन वारिणा अवाप्यचेतनां राजा विश्वामित्रमवेक्ष्य च पुनर्मोहं समापेदे सचक्रोधं व्ययौ मुनिः स समाश्वास्य राजानं वाक्यमाहद्विजोत्तमः दीयदां दक्षिणासामे यदि धर्ममवेक्षसे श्लोक फोर्टिवन् सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी सत्यं चोक्तं परो धर्मस्वर्ग सत्ये प्रतिष्ठितः अश्वमेधसहस्रं च सत्यं चतुलया धृतम् अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते अधवा किं ममैतेन साम्ना प्रोक्तेन कारणम् अनाते पापसकल क्रूरेच्चानृतवादी ईरा प्रभवि सद्भाव्रूयता मयम अद्य मे दक्षिण राज भदि हस्ताचल प्रयादर्के शपसा ताम तदोध्रुव इत्युक्त्वा स ययौ विप्रो राजा चास्येद्भयातुरः कान्दिग्भूतोद्धमो निःस्वो नृश्यं सधनिनार्दितः। धनिनार्दितः भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि स तथा चोद्यमानस्तु राजापत्न्या पुनः पुनः प्राकभद्रे करोम्येष विक्रयं तव निर्घृणः नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहं यदि मे शक्यते वाणी वक्तुमी दृक् सुदुर्वचः यवमुक्त्वा तदो भार्यां गत्वा नागरमाधुरः बाष्पापि हिदकण्डाक्षस्तदो वचनमब्रवीत् राजोवाच भो भो नागरिकास्सर्वे शृणुध्वं वचनं मम किं पृच्छदकस्त्वं भो नृशंसोहममानुषः श्लोक फिफ्टिवन् राक्षसो वादिकठिनस्ततः पापतरोऽपि वा विक्रेतुं दयिदां प्राप्तो यो प्राणां त्यजाम्यहं यदि वः कस्यचित्कार्यं दास्याप्राणेष्ठया मम सब्रवीदुत्वरा युक्तो यावत्सन्धारयाम्यहं पक्षिण ऊचुः अध वृद्धोद्विज कश्चिदागत्याह नराधिपं समर्पयस्व मे दासीमहं क्रेदाधनप्रदः अस्ति मे वित्तमस्तोगं सुकुमारी च मे प्रिया गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे कर्मण्यदावयोरूपशीलानां तव योषितः अनुरूपमिदं वित्तं गृहाणार्पय मे बलाम् एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः व्यदीर्यदमनो दुःखान्न चैनं किञ्चिदब्रवीत् ततः स विप्रो नृपतेर्वल्कलान्धे दृढं धनं बद्ध्वा केशेश्वधादाय नृपपत्नीमकर्षयद रुरोद रोहिताश्वोऽपि दृष्ट्वा कृष्टां तु मातरम् अस्तेन वस्त्रमाकर्षन् काकपक्षधरशिशुः राजपत्न्युवाच मुञ्चार्य मुञ्च तावन्मां यावत् पश्याम्यहं शिशुं दुर्लभं दर्शनं ताद पुनरस्य भविष्यति पश्यैः वत्समामेवम् मादरं दास्यतां गदां माम् मास्पर्क्षो राजपुत्र अस्पृश्याहं तवाधुना श्लोक 61 ततः स बालः सहसा दृष्ट्वा कृष्टां तु समभ्यधावदम्बेदि रुदन् शास्त्राविलेक्षणः तमागतं द्विजक्रोधाद्वालमभ्याहनत्पदा वदंस्तथाभि सोम्भेदि नैवामुञ्जदमादरं राजपत्न्युवाच प्रसादं कुरु में नाध क्रीणीष्वेमं च बालकं क्रीतापिनाकं भवदो विनयनं कार्यसाधिका इद्धं ममाल्पभाग्यायाः प्रसादसुमुखो भव मां सं यो जयबालेन वत्सेनेव पयस्विनीम् ब्राह्मण उवाच गृह्यतां वित्तमेदत्ते दत्ते दीयतां बालको मम स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेदनं शतं सहस्रं लक्षं च कोडिमूल्यं तथापरैः पक्षिण ऊचुः तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटेततः प्रगृह्य बालकं मात्रा सहैकस्तमबन्धयत् नीयमानौ तु दौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः विललापसुधुःखार्थो निःश्वस्योष्णं पुनःपुनः यां न वायुर्न चादित्यो नेन्दुर्न च चा पृथग्जनः दृष्टवन्धः पुरा पत्नी सेयं दासित्वमागता सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः संप्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मदिम् आप्रिये आशिषो नत्स ममा नार्यस्य दुर्नयैः दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक् श्लोका सेवेण्टिवन् पक्षिण ऊचुः एवं विलभतो राज्ञ सविप्रोन्तरधीयत वृक्षवेहादिभिस्तुङ्गैस्तावादायत्वरान्वितः विश्वामित्रस्ततः प्राप्तो नृपं वित्तमयाचद तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनं तद्वित्तं स्तोकमालोक्य दारविक्रयसम्भवम् शोकाभिभूतं राजानं कुपिधः कौशिकोऽब्रवीद क्षत्रबन्धो ममे मां त्वं सदृशीं यज्ञदक्षिणां मन्यसे यदि तत्क्षिप्रं पश्य त्वं मे बलं परं सुतप्तस्य ब्राह्मण्यस्यामलस्य च मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च अन्यां दास्यामि भगवन् कालः कश्चित् प्रतीक्ष्यतां साम्प्रतं नास्ति विक्रीता पत्नीपुत्रश्च बालकः विश्वामित्र उवाच चतुर्भागस्थितोऽयं दिवसस्य नराधिप एष एव प्रदीक्ष्यो मे वक्तव्यं नोत्तरं त्वया पक्षिण ऊचुः तवेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः तदादाय धनं तूर्णं कुविधः कौशिको ययौ विश्वामित्रे गदे राजा भयशोकाब्धिमध्यगः सर्वाकारं विनिश्चित्य प्रोवाचोच्चैरधो मुखः वित्तक्रीदेन मै प्रेष्येण मानव सब्रवी ुक्त यदि भास्कर अथा जगाम धर्मचंडादुर्गंधो विघतो रूक्ष्मुंधुरो घृणी कृष्णो लम्बो दरः पिङ्गरुक्षाक्षः परुषाक्षरः गृहीतपक्षिपुञ्चश्च शवमाल्यैरलङ्कृतः कपालहस्तो दीर्घास्यो भैरवो दिवदन्मुहुः स्वगणाभिभृतो घोरो यष्टिहस्तो निराकृतिः चण्डाल उवाच अहमर्थो त्वया शीघ्रं कथय स्वात्मवेदनं स्तोकेन बहुना वापि येन वै लभ्यदे भवान् पक्षिण ऊचुः तं तादृशमधालक्ष्यक्रूरदृष्टिं सुनिष्ठुरं वदन्तमदिदुश्शीलम् कस्त्वमित्याहपार्थिवः चण्डाल उवाच चण्डालोहमिहाख्यादः प्रवीरेधिपुरोत्तमे विख्यादो वध्यवधको मृदकम्बलहारकः हरिश्चन्द्र उवाच नाहं चण्डालदासत्वमिच्छेयं सुविगर्हितं वरं साभाग्निना दग्धो न चण्डालवशङ्गदः पक्षिण ऊचुः तस्यैवं वदधः प्राप्तो विश्वामित्रस्तपोनिधिः को वामर्शविवृताक्षः प्राहचेदं नरातपम् विश्वामित्र उवाच चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा हरिश्चन्द्र उवाच भगवन् सूर्यवंशोद्धमात्मानं वेद्मेकौशिक कथं चण्डालदासत्वं यमिष्ये वित्तकामुकः श्लोक नैण्टिवन् विश्वामित्र उवाच यदि चण्डालवित्तं त्वमात्मविक्रयजं मम नप्रदास्यसि कालेन शाप्स्यामि त्वामसंशयं पक्षिण ऊचुः हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः प्रसीदेधि वदन्पादा वृषेर्जग्राहविह्वलः दासोऽस्म्यार्तोऽस्मि भीदोऽस्मि त्वद्भक्तश्च विशेषतः गुरुप्रसादं विप्रर्षे कष्टश्चण्डालशङ्करः भवेयं वित्तशेषेण सर्वकर्मकरोऽवशः तवैव मुनिशार्दूलप्रेक्ष्यश्चित्तानुवर्तकः विश्वामित्र उवाच यदि प्रेष्यो मम भवान् चण्डालाय ततो मया दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै पक्षिण ऊचुः एकमुक्ते तदा तेन स्वपाको विश्वामित्राय तद्रव्यं दत्वा बद्ध्वा नरेश्वरं दण्डप्रहारसम्भ्रान्तमदीव्याकुलेन्द्रियम् इष्टबन्धुवियोगार्थमनयन्निजपत्तनं हरिश्चन्द्रस्तदो राजा वत्संश्चण्डालपत्तने प्रार्मध्याह्नसमये सायं चैतदगायत बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरह मां स्मरत्य सुखाविष्ठा मोचयिष्यति नौ नृपः उपात्तवित्तो विप्राय दत्त्वा वित्तमदोऽधिकं न सा मां मृगसवाक्षी वेत्तिपापतरं कृतम् श्लोका 101 अण्ड् राज्यनाशसुहृत्यागो भर्यातनयविक्रयः प्राप्ता महो चण्डालदा चेयमहोदुःखपरम्परा येवं स निवसन्नित्यं सस्मारदयितं सुतम् आर्याञ्चात्मसमाविष्टां हृदसर्वस्व आधुरः कस्यचित्वधकालस्य मृतचेलापहारकः हरिश्चन्द्रो भवद्राजाश्मशाने तद्वशानुगः चण्डालेनानुषिष्ठश्वमृतचेलापहारिणा शवागमनमन्विच्छन्निगतिष्ठदिवानिश्यम् इदं राज्ञेऽपि देयं च षड्भागन्धुशवं प्रति त्रयस्तु मम भागास्युर्द्वो भागौ तव वेदनं यदि प्रदिसमाधिष्ठो जगामशवमन्दिरं दिशन्धुदक्षिणां यत्र वाराणस्यां स्थितं तदा श्मशानं घोरसंनादं शिवाशदसमाकुलं शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम् पिशाचभूतवेदालदाकिनी यक्षसङ्कुलं गृध्रगोमायुसङ्गीर्णं स्ववृन्दपरिवारितम् अस्ति सङ्खादसङ्गीर्णम् महादुर्गन्धसङ्कुलं नानामृदसुहृन्नादरौद्रकोलाहलायुधं हा पुत्रमित्रहाबन्धो भ्रादर्वत्सप्रियाद्य मे हा पदे भगिनि मादर्हा मातुलपितामह श्लोक हण्ड्रेड् एण्ड् इलेवन् मादामहपिधक्व गदोऽस्येहि बान्धव इत्येवं वददां यत्र ध्वनिः संश्रूयते महान् ज्वलन्मांसवसामेदच्छमच्छमिदसङ्कुलम् अर्थदग्धा शवाश्यामा कसद्दन्तपङ्क्तयः हसन्धिवाग्निमध्यस्थाकायस्येयं दशा त्विधि अग्नेश्चटचडाशब्दो वयसामस्तिपङ्क्तिषु बान्धवाक्रान्तशब्दश्च पुसेषु प्रहर्षजः गायदां भूद रक्षसाम गायदाम्भूतवेदालपिशाचगणो रक्षसां श्रूयते सुमहान्घोरकल्पान्त इव निःस्वनः महामहिषकारीष गोशकृद्राशिसङ्कुलं तदुद्धभस्मकूटैश्च वृदं सास्थिभिरुन्नतैः नानोपहार त्रदीपकागविक्षेपकालिकम् अनेकशब्दबहुलं श्मशानं नरकायदे सवह्निगर्भैर्शिवैः शिवारुतैर्निनादिदम्भीषणरावगह्वरं भयं भयस्याप्युब भयस्याप्युभसञ्जनैर्भृशम् श्मशानमाक्रन्दविरावदारुणम् सराजा राजा तत्र सम्प्राप्तो दुःखितशोचनोऽद्यतः हाभृत्या मन्त्रिणो विप्रास्तद्राज्यं विधेगतम् हा शे पुत्रहाबाल मां त्यक्त्वा मन्दभाग्यकम् विश्वामित्रस्य दोषेण गदा कुत्रापि दे मम श्लोक हण्ड्रेड् एण्ड् ट्वेन्टि वन् इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः मलिनो रूक्षसर्वाङ्गकेशवान् गन्धवान्ध्वजी लकुटी कालकल्पश्च धावंश्चापि ततस्ततः अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युद इदं मम इदं राज्ञे मुख्यचण्डालकेत्विदम् इति दिशो राजा जीवन्योऽन्यन्तरं गतः कंधा जीर्णकर्पण्डसुग्रन्थिकृतकन्धापरिग्रहः चिदा भस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः नानामेधोऽवसामज्जालिप्तपाण्यङ्गुलिश्वसन् नानाशवो धनकृता हारतृप्तिपरायणः तदीयमाल्यसंश्लेष कृतमस्तकमण्डनः न नदिवाशेदे हाहे दिवाशेदे हा द्वादशमासास्तु नीता शतसमोपमाः स कदाचिन्नृपश्रेष्ठश्रान्दो बन्धुवियोगवान् निद्राभिर्भूतो रूक्षाङ्गो निश्चेष्टसुप्त एव च तत्रापि शयनीये स दृष्टवानद्भुदंहमद श्मशनाभ्यासयोगेन दैवस्य बलवत्तया अन्यदेहेन दत्त्वादु गुरवे गुरुदक्षिणां तदा द्वादशवर्षाणि दुःखदानातु निष्कृतिः आत्मानं स ददर्शाध पुकसि गर्भसम्भवम् श्लोक हण्ड्रेड् अण्ड् तर्टि सोचिन्तयदिदं तदा इदो निष्क्रान्तमात्रो दानधर्मं करोम्यहम् अनन्तरं स जातस्तु तदा पुकसबालकः श्मशानमृदसंस्कारकरणेषु सदोऽतः प्राप्ते प्राप्तेदु सप्तमे वर्षे श्मशानेधमृदो आनिदो बन्दो बन्धुभिर्दृष्टस्तेन तत्रा धनो गुणी मूल्यार्थिनादुतेनापि परिभूतास्तु ब्राह्मणाः ऊचुस्ते ब्राह्मणास्तत्र विश्वामित्रस्य चेष्टितम् पापिष्ठमशुभं कर्म कुरुत्वं पापकारक हरिश्चन्द्रः पुरा राजा विश्वामित्रेण पुःकसः कृतः पुण्यविनाशेन ब्राह्मणः स्वापनाशनाद् यदा न क्षमदे तेषां रुषा तदा गच्छत्वं नरकं घोरमधुनैव नराधम युत्योक्तमात्रे वचने स्वप्नस्थः स नृपस्तदा अपश्यद्यमदूतान्वै पाशहस्तान्भयावहान् तै सङ्गृहीतमात्मानं नीयमानं तदा बलात् पश्यति स्म भृशं खिन्नो हा मादः पिदरद्य मे एवं वादिसनरके निपातितः क्रकचैः पाट्यमानस्तु अन्धे तमसि दुःखार्तः भूयशोणिदभोजनः श्लोक हण्ड्रेड् अण्ड् फोर्टि वन् सप्तवर्षमृदात्मानं पुसत्वे ददर्शः दिनं दिनन्तु नरके दह्यदे पच्यदेन्यदः खिद्यते क्षोभ्यतेऽन्यत्र मार्यदे पाठ्यतेऽन्यः क्षायदे दीप्यतेऽन्यत्र शीतवादाहदोऽन्यतः एवं दिनं वर्षशतप्रमाणं नरके भवद तथा वर्षशतं तत्र श्रीविदं नरके भटैः ततो निपातितो भूमौ विष्ठाशीष्वाव्यजायदा वान्दाशी शीतदग्धश्च मासमात्रे मृतोऽपि सः अथापश्यत्खरं देहं हस्तिनं वानरं पशुं छागं विडालं कङ्गं गामविं पक्षिणं कृमिम् मत्स्यं कोर्मं वराकञ्च स्वाविधं कुक्कुडं सुकं शारिकां स्थावरांश्चैव सर्पमन्यां स्वदेहिनः दिवसे दिवसे जन्मप्राणिनः प्राणिनस्तदा अपश्यदु सुखसन्तप्तो दिनं वर्षशतं तथा एवं वर्षशतं पूर्णं गदं तत्र कुयोनिषु अपश्यच्च कदाचित् स राजा तत्स्वकुलोद्भवं तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् भार्याकृता च पुत्रश्च सचैकाकी चैकाकीवनं गतः तत्रापश्यद सिंहं वै व्यादितास्यं भयावहं विभक्षयिषुमायातं शरभेणसमन्वितं श्लोक हण्ड्रेड् एण्ड् फिफ्टि पुनश्च भक्षितः सोऽपि भार्यां शोचितुमुद्यतः हा शैव्ये क्व गदास्यद्य मामिहापास्य दुःखिदम् अपश्यत्पुनरेवापि भार्यां स्वं सह पुत्रकां त्रायस्व त्वं हरिश्चन्द्र किं द्यूतेन तव प्रभो पुत्रस्ते शोच्यतां प्राप्तो भर्यं या शैव्यया सह स नापश्यत्पुनरपि धावमानःपुनःपुनः अधापश्यत्पुनरपि स्वर्गस्थः स नराधिपः नीयते मुक्तकेशीसा दीना विवसनाबलात् आहा वाक्यं प्रमुञ्चन्ती त्रायस्वेत्य सकृस्वना पुनस्तत्र धर्मराजस्य शासनात् आक्रान्तन्त्यन्तरीक्षस्था आगच्छेह नराधिप विश्वामित्रेण विज्ञप्तो यमो राजंस्तवार्थदः इत्युक्त्वा सर्पपाशैस्तु नीयदे बलवद्विभुः श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्ठितम् तत्रापि तस्य विकृतिर्ना धर्मोद्धाव्यवर्धत एतास्सर्वादशास्तस्य या स्वप्ने सम्प्रदर्शिताः सर्वास्तास्तेन सम्भुक्ता यावद्वर्षाणि द्वादश अतीते द्वादशे वर्ष नियमानो भडैर्बलात् यमं सोपश्यदाकारादुवाच च नराधिपं विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मनः श्लोक हण्ड्रेड् पुत्रस्यदे मृत्युमपि प्रदास्यति सकौशिकः गच्छ मानुषं लोकं दुःखशेषं च भुङ्क्ष्व वै गतस्य तत्र राजेन्द्रश्रेयस्तव भविष्यति व्यतीते द्वादशे वर्षे दुःखस्यान्ते नराधिपः अन्तरीक्षाच्च पतितो यमदूतैः प्रणोदितः पतितो यमलोकाच्च विबुद्धो भयसम्भ्रमात् अहो कष्टमिधिध्यात्वा क्षदे क्षारावसेवनं स्वप्ने दुःखं महद्दृष्टं यस्यान्दो नोपलभ्यते स्वप्ने दृष्टं मया द्वादशा किन्नु गदेत्य द्वादशासमाः गदेत्यपृच्छत्तत्रस्तान् पुकसांस्तु ससम्भ्रमाद नेत्युचु केचित्तत्रस्था एव मेवापरिब्रुवन् श्रुत्वा दुःखी तदा राजा शरणीवान्स्तीकुंधु मे दैवाश्यामो धर्मा नम कृष्णा वेधसे परा वराय शुद्धा पुराणा व्यय च नमो बृहस्पते तुभ्यं नमस्ते वासवायच च एवमुक्त्वा स राजा तु युघ्रपुक्कसकर्मणि शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा मलिनो जडिधकृष्णो लकुटीविह्वलो नृपः नैव पुत्रो न भार्यादु तस्य वै नष्टोत्साहो राज्यनाशात् श्मशाने निवसंस्तदा श्लोक हण्ड्रड् अधा जगामस्वसुदं स्वसुधं मृदमादायलापिनी भार्यात्तस्य नरेन्द्रस्य सर्पदष्टं हि बालकं हा वत्सहा पुत्रशिशो इत्येवं वददीमुहुः कृशाविवर्णा विमनाः पां शुद्ध्वस्तशिशोरुहा राजपत्न्युवाच हा राजन्नद्यबालं त्वं पश्य सोमं महीतले रममाणं पुरा दृष्टं दुष्टाहिनामृतं तस्या विलापशब्दं तमाकर्ण्य स नराधिपः सदां रोरुदीं नाभ्य जानातु पार्थिव चिप्रवासंदनर्जा बला सापितं शाद पुरा दृष्ट्वा जडा लाभ्यन्नृपसुता शुष्कृक्षोपमं नृपम सोऽपि कृष्णपडेबालं दृष्ट्वा शीविषपीडितं नरेन्द्रलक्षणो वेदं चिन्ता मापनरेश्वरः अहो कष्टं नरेन्द्रस्य कस्याप्येष कुलेशिशुः जादो नीधकृधान्तेन कामप्याशां दुरात्मना एवं दृष्ट्वा हि मे बालं मादुरुत्सङ्गशायिनं स्मृतिमभ्यागदो बालो रोहिताश्वोब्जलोचनः सोऽप्येदामेव मे वत्सो वयोवस्थामुपागतः नीदो यदि नघोरेण कृदान्तेनात्मनो वशम् श्लोक हण्ड्रेड् अण्ड् एय्टिवन् राजपत्न्युवाच ह वत्स पापस्य अपध्यानादिदं महद दुःखमापतितं यस्यान्दो नोपलभ्यते ह नाराजन् भवदा मामनाश्वास्य दुःखितां क्वापि सन्दिष्टदास्थाने विश्रब्धं स्थीयते कथं राजनाशः सुहृत्यागो भार्यातनयविक्रयः हरिश्चन्द्रस्य राजर्षे किं विधे नकृतं कृतं त्वया इति तस्या वचः श्रुत्वा राजास्वस्थानतश्च्युतः प्रत्यभिज्ञा यदयितां पुत्रञ्च निधनं गदं कष्टं शै्येयमेषा हि स बालोयमितीरयन् रुरोदुःखसन्तप्तो मूर्च्छामभिजगाम च सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतं निपपादार्था निश्चेष्टा धरणीतले चेदसम्प्राप्य राजेन्द्रो राजपत्नीजतैः समं विलेपदुः सुसन्तप्तौ शोकभारावपीडितौ राजोवाच हा वत्ससुकुमारं ते स्वक्षिभ्रू नासिकालकं पश्यदो मे मुखं दीनम् हृदयं किं न दीर्यते तादतादेदि मधुरं ब्रुवाणं स्वयमागतम् उपगुह्यवदिष्येकं वत्स वत्सेदिसौहृदाद कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति श्लोक हण्ड्रेड् अण्ड् नैण्टिवन् अङ्गप्रत्यङ्गसम्भूदो मनोहृदयनन्दनः मया कुपित्राहावत्स विक्रीदो येन वस्तुवद हृत्वा राज्यमशेषं ससाधनधनं महद दैवाहिना नृशंसेन दष्टो मे तनयस्तदः अहं दैवाहिदष्टस्य पुत्रस्यानपङ्कजं निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः परिष्वज्यजनिश्चेष्टो मूर्च्छया निपपातः राजपत्न्युवाच अयं स पुरुषव्याक्रस्वरेणैवोपलक्ष्यते विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः तथास्य नासिका तुङ्गा मुखं गदा दन्ताश्च मुकुलप्रख्याख्यातकीर्तेर्महात्मनः श्मशानमागधकस्मादद्यैष स नरेश्वरः अपहाय पुत्रशोकं सा पदिं। प्रकृष्टा विस्मिदादीना भर्तृपुत्राधिपीडिता वीक्षन्ती सा तदोपश्यद्भर्तृदण्डं जुगुप्सितं श्वपाकार्हमधोमोहं जगा मायतलोचना प्राप्य चेतश्च चनकैस्सगद्गदमभाषत धिक्त्वां दैवादिकरुणां निर्मर्यादं जुगुप्सिदं येनायममरप्रख्यो निदो राजाश्वपाकताम् श्लोक टु हण्ड्रेड् अण्ड् वन् राज्यनाश्यं सुहृत्यागं भार्यातनयविक्रयं प्रापयित्वापि नो कुक्रण्डालोऽयं कुतो नृपः ह राजन् जातसन्तापामिद्धं मां धरणीतलाद उद्धाप्यनाद्यपर्यङ्कमारोहेदि नाद्य पश्यामि तेच्छत्रं भृङ्गारमधवा पुनः चामरं व्यचनं चापि कोऽयं विधिविपर्ययः यस्याग्रे व्रजतः पूर्वं राजानो भृत्यदाङ्गदाः सोत्तरीयैरकुर्वन्दनीरजस्कं महीतलम् खडी मृद यं कपालसंलग्नखडीखनिरन्तरे मृदनिर्माल्यसूत्रान्तर्गुप्केशे सुदारुणे वसानिष्यन्दसंशुष्कमहीपुडकमण्डिते भस्माङ्गारार्थदग्धास्ति मज्जात्सङ्घट्टभीषणे गृध्रगोमायुनादार्तनष्टक्षुद्रविहङ्गमे चिदा धूमातदिरुचा नीलीकृतदिगन्धरे गुणपास्वादनमुदा सम्प्रकृष्टनिषाचरे चरत्यमेध्ये राजेन्द्रश्मशाने दुखपीडिमु सशंराज नृपत्मज कष्टशोकशद विललावाया गिराजपत्ुवाच राज तभ्यम वे तन्मे भा तत् कथ्यदा महाभागमनो वैमुह्यते मम श्लोक 211 हण्ड्रेड् अण्ड् इलेवन् यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता तथैव विप्रदेवादिपूजने पालने भुवः नास्ति धर्मक्रुतः सत्यमार्जवं चानृशंसदा यत्र त्वं धर्मपरमस्वराज्यादवरोपितः इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदं कथयामास तन्वङ्ग्या यदा प्राप्ता श्वपाकता रुदित्वा सापि सुचिरं निःश्वस्योष्णं च दुःखिता स्वपुत्रमरणं भीरुर्यथा वृत्तं न्यवेदयद राजोवाच प्रियेण रोचये दीर्घं कालं क्लेशमुपासितुम् नात्मा यतश्च पश्यमे पश्य मे मन्दभाग्यदाम् प्रवेक्षे प्रवेक्ष्येज्वलनं यदि चण्डालदासदां यास्ये पुनरप्यन्यजन्मनि नरके च तपिष्यामि कोटकः कृमिभोजनः वैतरण्यां महाभूयवसासृक्ष्णायुपिचिले असिपत्रवने प्राप्यच्छेदं प्राप्स्यामि तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ मग्नस्य दुःखजलधौ पारःप्राणवियोजनं ये कोऽपि बालकोऽयमासीध्वंशकरसुतः मम दैवाम्बुवेगेन मग्नसोपि बलीयसा कथं प्राणान् विमुञ्चामि परायत्तोस्मि दुर्गदः श्लोका 221 अधवा अण्ड् ट्वेन्टि नार्तिनाक्लिष्टो नरः पापमवेक्षते तिर्यग् नास्ति तद्दुशं नासिपत्रवने तथा वैतरण्याङ्कुदस्तादृ यादृशं पुत्रविप्लवे सोऽहं सुतशिरीरेण दीप्यमानो हुदाशने निपतिष्यामि तन्वङ्गिक्षन्तव्यं कुकृतं मम अनुज्ञाता च गच्छत्वं विप्रवेश्म शुचिस्मिदे मम वाक्यञ्च तन्वङ्गि निबोधा धृतमानसा यदि यदि हुदं गुरवो यदि तोशिताः परत्र संगमो भूयात्पुत्रेण सह सहचत्वया त्वया इह लोके कुतस्त्वेदद्भविष्यदि ममेऽङ्गिदम् त्वया सह मम गमनं पुत्रमार्गणे यन्मयाः सदा किञ्चिद्रहस्येवा शुचिस्मि ते अश्लीलमुक्तं तत्सर्वं क्षन्तव्यं मम याचतः राजपत्नीधिगर्वेण नावज्ञे यः सर्वयत्नेन ते तोष्य स्वामिदैवच्छुभे राजपत्न्युवाच अहमप्यत्र राजर्षे दीप्यमाने हुदाशने दुःखभारासहाद्यैव सह यास्यामि वै त्वया पक्षिण ऊचुः तदकृत्वा चिदां राजा आरोप्यतनयं स्वकम् भार्यया सहितश्चासौ पुडस्तदा चिन्दयन् परमात्मानमीशं नारायणं हरिं हृत्कोडरगुहासीनं वासुदेवं सुरेश्वरं। अनादिनिधनं ब्रह्मकृष्णं पीताम्बरं शुभम् श्लोका 231 हण्ड्रेड् अण्ड् तर्टि वन् तस्य चिन्तयमानस्य सवा धर्मं प्रमुखधकृत्वा समाजग्मुस्त्वरान्विताः आगत्य सर्वे प्रोचुस्ते भो भो राजन् शृणु प्रभो अयं पिता महस्साक्षाद्धर्मश्च भगवान् स्वयं साध्याश्च विश्वे मरुदो लोकपालास्सवाहनाः नागासिद्धा स गन्धर्वा रुद्राश्चैव तद्धाश्विनौ ये विश्वामित्रस्तथैव च विश्वत्रयेण यो मित्रं कर्तुं न शकितः पुरा विश्वामित्रस्तु ते मैत्रीमिष्ठञ्चाहर्तुमिच्छति आरुरोह तदः प्राप्तो धर्मश्चक्रोधगाधिजः धर्म्यवाच माराजन्साहसं कार्षोर्धर्मोहं त्वामुपागतः तिदिक्षादमसत्याद्यैः स्वगुणैः परिदोषितः इन्द्र उवाच हरिश्चन्द्रमहाभागप्राप्तः शक्रोऽस्मिदेकम् त्वया सभा्यपुत्रेण जिद्लोक सनातना आरोहत्रिदिवराजन भार्पुत्र सुदुषा पक्षिन पक्षिपूचु तदो मृदमयं वर्षमपमृत्युविनाशनम् इन्द्रः प्रासृजदाकाशाचिदास्थानगदप्रभुः पुष्पवर्षं च सुमखद्देवदुन्दुभिनिःस्वनं ततस्ततो वर्तमाने समाजे देवसङ्गुले श्लोक 241 हण्ड्रेड् अण्ड् पुत्रो राज्ञस्तस्य महात्मनः तनुसुस्तफ प्रसन्नेन्द्रियमानसः तदो राजा हरिश्चन्द्रः परिष्वज्य सुदंक्षणादसभाज्यः सश्रियायुक्तो दिव्यमाल्याम्बरान्वितः सुस्थः सम्पूर्णहृदयो मुदा परमयायुधः बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं परां समारोह माहभागनिजानां कर्मणां फलैः हरिश्चन्द्र उवाच देवराजाननुज्ञातस्वामिना स्वपचेन वै अगत्वा निष्कृधिं तस्य नारोक्ष्येऽहं सुरालयं धर्म उवाच सवैनं भाविनं क्लेशमवगम्यात्ममायया आत्मा श्वपा कदाम् नीदो दर्शितं तच्च चापलम् इन्द्र उवाच प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि तदारोहरिश्चन्द्रस्थानम् पुण्यकृतां नृणां हरिश्चन्द्र उवाच देवाराजनमस्तुभ्यं वाक्यं चैतन्निबोधमे प्रसादसुमुखं यत्त्वां ब्रवीमि प्रश्रयान्वितः मच्छोगमग्नमनसकोशलानगरे जनाः तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवं ब्रह्महत्या गुरोर्कादो गोवधस्त्रीवधस्तदा तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदा हृदम् श्लोक टु हण्ड्रेड् अण्ड् भजन्तं भक्तमत्याज्यमदुष्टं त्यजदः सुखं नेहनामुत्र पश्यामि तस्माच्छक्रदिवं व्रज यदि ते सहितास्वर्गं मया यान्दिसुरेश्वर ततोऽहमपि यास्यामि नरकं वापि तैः इन्द्र उवाच बहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् संखाद भोग्यं त्वं भूय स्वर्गमवाप्स्यसि हरिश्चन्द्र उवाच शक्रभुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनां यचतेजमहायज्ञै कर्मपौर्तं करोति च तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् उपकर्तृन्न सन्ध्यक्ष्ये तानकं स्वर्गलिप्सया तस्माद्यन्मम देवेश किंजिदस्ति सुचेष्टितं दत्तमिष्टमधो जप्तम् सामान्यं तैस्तदस्तु नः बहुकालोपभोग्यं हि फलं यन्ममकर्मणः ततस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः पक्षिण ऊचुः एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः प्रसन्नचेदाद्धर्मश्च विश्वामित्रश्च गाधिजः विमानकोटिः सम्बद्धं स्वर्गलोकान्महीतलं गत्वा योध्याजनं प्राह दिवमारुह्यतामिति तदिन्द्रस्य वच प्रीत्या तस्य ज आनीय रोहिताश्च विश्वामित्रो महात्तः श्लोका 261 हण्ड्रेड् अण्ड् सिक्स्टी वन् अयोध्याख्ये पुरे रम्ये शोभ्य देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपं राज्ञा सः तदा सर्वे हृष्टपुष्टसुहृजनाः सपुत्रभृत्यधारास्ते दिवमारुरुहुर्जनाः पदे पदे विमानास्ते विमानमगमन्नराः तदा सम्भोदहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः सम्प्राप्य भूतिमधुलां विमानैः समहीपतिः आसाञ्चक्रे पुराकारे वप्राकारसंवृते ततस्तस्यर्द्धिमालोक्यश्लोकं तत्रोशना जगौ दैत्याचार्यो महाभाग शक्र उवाच हरिश्चन्द्रसमो राजा न भूतो न भविष्यदि यशृणोदि स्वदुःखार्थः स सुखं महदाप्नुयाद स्वर्गार्थोऽप्राप्नुयात्स्वर्गम् पुत्रार्थो पुत्रमाप्नुयाद भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयाद अहो तितिक्षामाहात्म्यमहो दानफलं महद यदा गतो हरिश्चन्द्रः पुरीं चेन्द्रत्वमाप्तवान् पक्षिण ऊचुः ये दत्तेत्सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् अधः परं कथाशेषश्रूयतां मुनिसत्तमा विपाको राजसूयस्य पृथिवीक्षयकारणं तद्विपाकनिमित्तञ्च युद्ध युद्धमा श्री मकंडेयपुराणे हरिश्चंद्रोपाख्याम